सर्वेषाम् अस्मिन् पाणिनीयव्याकरणवर्गे स्वागतम् श्रीगुरुभ्यो नमः एनाक्षरसमान्यायमधिगम्य महेश्वरात् कृष्णं व्याकरणम् प्रोक्तं तस्मै पाणिनये नमः येन चौदागिरः पुंसा विमलैशब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिन्यये नमः वाक्यकारं वररुचिं वर भाष्यकारं पाणिनीं सूत्रकारं चुणः सूत्रसहिता दृष्टि इत्यत्र उरण्डपरः इति सूत्रपर्यन्तं वयं दृष्टवन्तः स्थानेन्द्रतमः इति सूत्रमपि परिभाषासूत्रं दृष्टं तत् इत्युक्ते उच्चारणस्थानम् अनुसृत्य स्थानि अपि च आदेश इको एणचि इति सूत्रम् अत्र उदाहरणमासीत् खलु आद्गुणः आसीत् वा एकारः ईकारस्य तदेव आद्गुणः इति सूत्रम् उदाहरणवान् अत्र इदं कथं जानीमः इति अस्ति खलु ततः अद्य पेज पेज् 8 एय्ट् स्वीकरोतु वा पेज् नम्बर् एयट् एयत् स्नेहल् भगिनी पठितुं शक्यते वा भगिनि अहं पठामि वा भगिनि स्नेहल् भगिनी इदं कथं जानीमः किं किमस्ति गुण गुणः सूत्रसहितादृष्टिः इदं कथं जानीमः स्थानेन्तरतमः पदविच्छेदः स्थाने अन्तर अन्तरतमः सूचयति यत् यस्य वर्णस्य स्थाने आदेशः भवति तस्य अन्तरतमः नामतुल्यतमः सदृशः वर्णः अदे आदिष्टः स्यात् अस्मिन् प्रसङ्गे सारल्यार्थम् इदानीं तुल्यताय् एय् एय् अत्र एतत् प्रेषितं खलु गणमध्ये तत्र अष्टमपुटः स्वीकरोतु तत् सर्वत्र धन्यवादः पठतु भगिनि अस्मिन् प्रसङ्गे सारल सारल्यार्थम् इदानीं तुल्यतमः इत्युक्ते उच्चारण उच्चारणस्थाने तुल्यतमः वर्णः इति अवगच्छेम इदं परिभाषासूत्रम् आहत्य गुणप्रसङ्गे प्रथमम् अ इ अनयोः उच्चारणस्थानं तालु गुणवर्णेषु केवलम् ए इत्यस्य उच्चारणस्थानं कण्ठतालु अतः इ ई स्थाने ए आदिष्टः भवति द्वितीय उ ऊ अनयोः उच्चारणस्थानम् औष्टौ गुणवर्णेषु केवलम् ओ इत्यस्य उच्चारणम् कण्ठोष्टम् अतः उ स्थाने ओ आदिष्टः भवति तृतीयम् रु, रु, रु अनयोः उच्चारणस्थानं मुर्ता गुणवर्णेषु कसारण स्थान मूर्धा न चतु ल्लु इत उच्चारण स्थान दंता गुणवर्णेशु कूर्धा नु लु लुषा एशा, स्था यदि ह्रस्व अकार आदि तह अकार रपरः इति समस्तपदं तस्य विग्रहवाक्यं रः परः यस्य सः रपरः रप्रत्याहारः रल. धन्यवादः किम भगिनी किम् इति वदामि स्थाने अन्तरतमः इति किमस्ति परिभाषासूत्रमेव किं सूचयति इति चेत् यस्य वर्णस्य स्थाने आदेशः भवति तस्य अन्तरतमः ना, नाम तुल्यतमः इत्युक्ते इत्युक्ते मोस्ट् सिमिलर् वर्णः अत्र आदिष्टः स्यात् तर्हि अस्मिन् प्रसङ्गे किम् इदं परिभाषासूत्रम् उच्यते इति चेत् ईकारस्य ईकार इकारः ईकारः अनयोः इकार उच्चारणस्थानम् वह जानी इधा वाला उच्चारणस्थन ते त्रन तेज यदा, उच्चारण स्थान क्य वर्त उच्चारणस्थन कंठतालु साक्षात्लु तंठतालु इतने की किचित उपरी गंठतालु ए तह सदृशतम वर्ण अस्कार ऊकार अनो उच्चारणस्थनमी ओष्ठ तरी सदृशतम वर्ण अस्कार अस उच्चारणस्थन कंठ ओष्ठारणस्थनमूर् गुणवर्णेषु कस्यापि इत्युक्ते अदे गुणः खलु अनेन सूत्रेण अत् एः एकारह, ओकारह, ए एतेभ्यः किम् अस्ति गुणवर्णः इति उक्तं तादृशगुणवर्णेषु कस्यापि उच्चारणस्थानं मूर्ध मूर्धः तर्हि अस्य निर्णयम् कथं भवति इति चेत् अग्रे उच्यते लृ इत्यस्यापि उच्चारणस्थानं दन्दा गुणवर्णेषु कस्यापि उच्चारणस्थानम् दन्दापि नोष तर्हि ऋकारः ऋकारः ऋकारः लृक् लकारः येषाम् स्थाने यदि ये ह्रस्व अकारः आदिष्टः तर्हि तेषां स्थाने कः वर्णः आगच्छति तादृशतमः वर्णः नास्ति परन्तु अकारः आगच्छति अयम् अकारः कीदृशः भवति इति चेत् यदा गुणवर्णरूपेण अकारः आगच्छति तस्मिन्नेव समये अयम् अकारः कीदृशः भवति इति चेत् परः भवति तदेव उर् उरन् इति अण् इति वदामः खलु अण् प्रत्याः स्थामः अत्र उ इति तस्य षष्टी विभक्तिः उः रुकारस्य षष्टी विभक्ति पितृ इति अस्ति खलु पितुः इति भवति तस्य षष्टी विभक्ति रन्बरः इति अग्रिमसूत्रं पश्यामः तर्हि सूत्रम् अग्रे आयासति तस्मात् पूर्वं रपरः इति पदमस्ति रल् इति प्रत्याहारः अस्ति प्रत्याहारेषु पश्यतु अत्र लकार कुत्र आगच्छति तत्र पश्यामः चेत् पूर्वं रा इति दृश्यते तर्हि रकारः लकारः अस्मिन् प्रत्याहारे वर्तते रल् इति प्रत्या से नाम कवल पर परे, परे अस्ती चेदी अर आदेश शैल्यागिनी भगनी भगिनी पटु आ, सीना भगिनी भगिनी पठतु सीना भगिनी न प्राप्नोमि भगि तर्हि सम्पूर्णभगिनी भगिनी पठतु विजयसिङ्ग् महोदय भवान् म्यूट् करोतु ध्वनिः आगच्छति शैलाभगिनी भगिनी म्यूट् करोतु सम्पूर्ण हा सम्पूर्णभगिनी अपि अत्र नास्ति इति मन्ये सुशील पठतु भगिनी शैलाभगिनी म्यूट् करोतु आम् सूत्रम् उरन् रपरः पदविच्छेदः उह अण्परः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः स्यात् ऋकारेण ऋष्टात् प्रकारः ऋकारः भवति इति बोध्यम् रपरः यस्य सः रपरः ऊहः षष्ठन्तम् अण् प्रथमान्तं रपरः प्रथमान्तं त्रिपदमिदं सूत्रम् स्थाने अन्तर्तमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् ऊहः स्थाने अण्परः इदं परिभाषासूत्रम् उहु आम् अस्तु उः स्थाने अन्रपरः इदं परिभाषा सूत्रम् ऋवर्णये वर्णयेर्मितः सावर्यं वाच्योमितः सावर्ण्यं वाच्यम् रेपः ऋवर्णयोर्मितः सावर्ण्यं वाच्यम् इदं वार्तिकं यद्यपि ऋकारः मूर्धन्यः लृकारः दन्तत्यः तथापि मध्ये अस्ति खलु तद्वत् लु, लु।, लु। लुकारः अस्तु लुकारः दन्तव्यः तथापि द्वयोर्मध्ये परस्परं सावर्ण्यम् अस्ति इति इदं वार्तिकं वदति उरण्परः इत्यस्मिन् सूत्रे प्रयुक्तः ऊहः शब्दः रुकारः लुर् इत्योः षष्टि एकवचनस्य रूपम् अण् प्रत्याहारे शब्दः ऋकारस्य ल इति वर्णस्य षष्टि एकवचनं रूपम् अग्रे अस्तु अण् प्रत्याहारे आ इ एते वर्णाः स्यु रा प्रत्याहारे लिर् लु एतौ वर्णौ एतौ वर्णौ स्यात् स्याताम् स्याताम् लण् मध्ये आम् आम् लण् मध्ये द्वि द्विसंयकः पदविच्छेदः लण् मध्ये तु इत् इत् संयकः सूत्रेषु लङ् सूत्रस्य लकारात् परतः अकारः न केवलम् उच्चारणार्थः अपि सह सः तेन रैङ् प्रत्याहारे र क्रियते धन्यवादः भगिनि धन्यवादः इति सूत्रमस्ति सूत्रं पूर्वमपि वयं दृष्टवन्तः परन्तु अत्र बहु किम् उक्तमस्ति तर्हि तत् पश्यामः उः उरन् रबरः इति सूत्रे उः इति अस्ति खलु अण्बरः उहु अण्बरः इति अस्ति तर्हि उहु इति पदम् आदौ दृश्यते तत् किम् कस्य स्थाने इति वक्तव्यं षष्ट्यानुद्विष्टपदम् स्थानी बोधयति तर्हि उहु इति षष्ट्यन्तम्पदम् अण् इति प्रथमान्तं पदम् रबरः प्रथमान्तं पदम् तर्हि अण् इति आदेशः भवति तदा सः अन् सदा रबरः स्यात् अत्र रवरः इति अपि प्रम प्रथमान्तं पदम् रेभः परे स्यात् इति अर्थं रवरः इत्यस्य ऋकारेण त्रिंशत् प्रकाराः ऋकाराः भवति मिलित्वा बोध्यमे अकार ऋकार अस्तु मिल्वा तोंश्रकारकृकार से क्षम्य मिल्वा तहति बोध्यम रेखः परः यस्य सः रपरः उः इति षष्ट्यन्दं तदुक्तम् त्रिपदम् इदं सूत्रम् रः उः अण्रः उः अण्बरः इति त्रिपदमिदं सूत्रम् द्वितीयसूत्रम् किमस्ति इति चेत् स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः तर्हि अनुवृत्तिसहितसूत्रं कीदृशम् अस्ति इति चेत् नेरभाषा सूत्र तकार लिकार अनयो मिथर्ण्यथ वाच्यम सवर्ण्यम वाच्यम वातिकम लिकार से सवर्ण्य कथं प्राप्तम् इति चेत् अनयनवार्तिकेन एव प्राप्तम् यदि ऋकारः मूर्धन्यः लिकारः दन्द्यः तथापि यद्यपि ऋकारः वयं जानीमः तद् मूर्धन्यः उच्चारणस्थानं मूर्धा अस्ति षकारस्य तदा तद्वत् इदानीं ल इति वर्णस्य उच्चारणस्थानम् गन्तव्य तकारस्य यदा तदा एव तदापि उभयोः परस्परम् सावर्ण्यम् अस्तीति अनेन वर्तिकेन वयम् ज्ञातुम् शक्यते अकर् अग्रे गत्वा उरन् इत्यस्मिन् सू, सूत्रे प्रयुक्तः उः शब्दः ऋकारस्य लकारस्य षष्टि एकवचनस्य रूपम् तद् वयं जानीमः पित् इति प्रातिपदिकस्य षष्ट्यन्तरूपमस्ति पितुः इति अतः उः इति ऋकारस्य षष्ट्यन्तरूपम् अण् इति प्रत्याहारे ऐ उन् इति अस्ति खलु तर्हि अकारः इकारः उक उकारः एते वर्णे वर्णाः स्युः उरन् रपरः अत्र रपरः इति अस्ति खलु अत्र र इति प्रत्याहारः अस्ति न तत्र नास्ति खलु तत्र एव अत्र र इति प्रत्याहारः रल् इति वदामः तत्र रकारः लकारः उभयोः वर्णयोः निर्दिष्टम् अत्र वर्तते अस्मिन् प्रत्याहारे लण् मध्ये ले तो इत संक लगती महेश्वर सूत्र लूत्र लाता अकार न कव उच्चार अपि तु सः सः इत् सञ्ज्ञकः इत्युक्ते लङ् इति कश्चन प्रत्याहारः अस्ति कुत्र इति पश्यामः लकारः स्तरद्वये आगच्छति खलु कुत्र भगिनि भवति लकारः कुत्र आगच्छति हैवर् लण् इत्यत्र अण् एव परन्तु तद् नास्ति भगिनी लकारस्य उपरि अकारः अनुनासिकाकारः अतः तर्हि हैव् लण् इति षष्टः प्रत्याहारः पश्यतु अत्र वयं जानीमः यद् यत् यत्र यत्र व्यञ्जन व्यञ्जनवनः साक्षात् दृश्यते दृश्यते वा इति चेत् न सर्वत्र अकारयुक्तः एव दृश्यते तत्तु उच्चारणार्थमेव तर्हि तेषु परतः विद्यमानः अकारः केवलम् मुद्ध। अत्र किमुक्तं न केवलम् उच्चारणार्थम् अपि तु अपि तर्हि अत्र युत्संज्ञकः इति मध्ये इति कथं वयं जानीमः इति इत् संज्ञकः इति दत्तमस्ति आस... किमर्थं तद् दत्तमस्ति इति चेत् अत्र आ... अकारः अण् इति प्रत्याहारे आ इ उ एते वर्णाः सन्ति इति उक् उक्तं यदा रपरः अकारः आगच्छति तदानीं रपरः अपि आगच्छति इति उक्तं खलु तत् ता... तर्हि इदं किम् अस्ति अत्र ल इति इत्यस्य उपरि अनन्तरम् अकारः अस्ति तरी अद्य उतम तकार से का उच्य अयं अकार न कव उच्चार्स वित्स अहारे किलम लकार अकार अवगत प्रश्न अस्त तो सहिता दृष्टि आहते गुण प्रसंगे एकम एक अनो उच्चारण उच्चारणस्थन कालु गुण गुणवर्णेषु केवलम् ए, ए इत्यस्य उच्चारणस्थानं कण्ठतालु अतः इन् इ, इ, इ, इ, इ, इ स्थाने ए आदिष्टः भवति उ ऊ अनयोः उच्चारणस्थानम् ओष्टौ गुण गुणवर्णेषु केवलम् ओ इत्यस्य उच्चारणस्थानं कण्ठोष्टम् अतः उ, उ स्थाने ओ आदिष्टः भवति ऋ ऋ अनयोः स्थाने प्रथमं गुणवर्णेषु अ आदिष्टः भवति तदनन्तरं सः आ रपरपरः भवति इत्युक्ते अर् अर् भव भवति अर् इत्यस्य उच्चारणस्थानं कण्ठभू कण्ठ कण्ठमूर्धा कण्ठमूर्धा आहत्य ऋ अनयोः स्थाने अर आदिष्टः भवति इति व्यवहारः वर्तते लृ इत्यने लृ शुद्धं लृ ऋकारः न आवश्यकं केवलं लक्षा धन्यवादः ल इत्यस्य ल स्थाने अल भव, अल अल इत्यस्य स्थाने प्रथमं गुणवर्णेषु आदिष्टः भवति तदनन्तरं सः अरपरः भवति इत्युक्ते अल् भव अल् भवति अल् इत्यस्य उच्चारणस्थानं कण्ठ कण्ठदन्तः ल ल इत्यस्य स्थाने अल् आदिष्टः भवति इति व्यवहारः वर्तते उत्तमं धन्यवादः भगिनी इदानीं म्यूट् हा म्यूट् करोतु इदानीम् एतत् सर्वम् उक्तं केवलम् अल् इति वद आगच्छति लिकारस्य स्थाने तदेव अत्र भिन्नवास तर्हि अल् इति वदामः चेत् कण्ठमूर्था एव उच्चारणस्थानम् उच्चारं धन्यवादः भगिनी मणिकुमारी भगिनि भगिनी पठतुङ्गपरः सूत्रं सुरीचित्रं तस्य प्रयोगः कुत्र भवति यत्रापि पदनिर्माणे उपकारस्य उपकारस्य च स्थाने अन्वर्णः आदि भवति तत्र उरङ्गपरः इत्यस्य आदिं भवति आने अन्तरतमः इत्यस्य समर्थनम् एकम् उदाहरणं यदा अवकाशः भवति तदा अस्मिन् विषये अग्रे गच्छयिष्यामः इदानीं सूचन स्थूल स्थूलचिन्तनम् उदाहरणात् दृश्य युवादिः द्वयोहानौ द्वयोहानौद्यते सर्वप्रथमम् अनुबन्धानां विनाम् तेषां लोपः च दृश्य युक्तं तन् युक्तं तिप् युक्तं तिप् भवति द्युयुक्तं या युक्तं किं ऋषतिपद्धिते अलन्त्यं तस्य लोपः अस्मिन् दृष्टान्ते सर्वं विकारस्य स्थाने विकारः आदेशः द्विक्तं द्वितं युक्तं किं द्वि युक्तं द्विक्तं या इत्थं तित्रं किं अण् प्रत्याहारस्य वर्णः अपि द्विस्थाने आदिष्टः वर्णः द् युक्तं द्विक्तं या रुक्तं स्मि गृण्डपरः अनन्तरं इकारस्य स्थाने ईकारादेशः द्वितं युक्तं युक्तं स्मितं किं वर्णमेलनं अत्र अन्येषां चित्राणां प्रसङ्गः आन्यचित्राणि अग्रे रक्षामः <coughs> तावद् धन्यवादः भगिनी कर्तुं शक् मे कलपुत्र तहि अरंटपर सूत्रम पिभाषा सूत्र ते प्रयोग बहुत उत्तम पद निर्माणे ऋकार से चाने अण्वर्ण आदि अर् अल आदेश क्रमश होती वुरन्द्रबरः इत्यस्य कार्यं भवति केन परिभाषासूत्रेण इति चेत् स्थानेन्द्रतमः तस्य एकम् उदाहरणम् अत्र दत्तमस्ति जृष् इति दिवारिगणीय धातुः अस्ति वयोहानौ इति अर्थः अस्य लटीरूपम् यदा निर्माणं कुर्मः तत्र जृष् इत्यत्र षकारस्य हलन्द्यम् इत्यनेन संज्ञा भवति दृ एवशिष्यकार ठी तरी धृग याग है ती अस्तकार सेनेदेश धाक सूत्रमस्ती अन सूत्रेण अंती इर् इति आदेशः भवति इदानीं किमस्ति जि योगः ऋकारस्य स्थाने अर् इति न भवति इर् इति भवति तर्हि यतोहि दिवादिगणीयधातुः अस्ति न तु भुवादिगणीयधातुः तर्हि इर् इति आदेशः यदा भवति तर्हि इर् यो इर् योगः या योगः ति इत्यत्र जिर् भवति सूत्रम परंतु इन सूत्र आगे दीर्घमें कौती तदस्चा सूत्रम अनेना अने दीर्घत्में तह जीग या मध्ये सूत्र आगछति शन प्रत्यय अ अस्ाते प्रथम ऋस्थ आदेश अत ऋकार अस्त अत्याह वर्ण अभी चु स्थने आदिष वर्ण है तह अ आदेश कदा चे आदो ऋकार स्था इकार अस्ा अकार अस्ट यदा इकारः आगच्छति तदानीं इति सूत्रेण उरञ्जपरः इत्यनेन रेभः रे अपि आगच्छति तर्हिगः इरियोगः या योगः ति अनन्तरम् ई स्थाने ई आदेशः भवति तत्रापि तर्हि ईर्योगः योगः ति जीर्यति इति प्रति जीव्यति इति रोगं सिद्ध्यति धातुङ्गे गुणः तदेव अस्माकं पाठः खलु तत् पश्यामः ललित ललिता भगिनि पठतु ऋकारस्य स्थाने अकारः आगत्वा इकारः आगत्य आगच्छति तदर्थम् तदर्थमेव उक्तं दिवालिगणीयधातुः अस्ति ऋकारादधातुः अस्ति तर्हि ऋद इत् धातोः इति अत्र सूत्रं वर्तते अनेन सूत्रेण कुत्र भवति इति द्रष्टु द्रष्टुशक्यते चेत् सूत्रनिमित्तमस्ति तादृशनिमित्तम् अत्र दृश्यते तत्र अनेन सूत्रेण अकारस्य स्थाने इकारादेशः भवति इति ज्ञातुं शक्यते दिवादिगणीयधातुः अस्ति अयं दृ धा पठतु गुणः सूत्रसहिता दृष्टिः गुणः स्थलद्वये भवति धातोः अन्ते स्थितस्य इकः स्थाने गुणः भवति केन सूत्रेण भवति केन सूत्रेण भवति चृति मैं सम्साлек sympath इस्ट्रैना और सम्साथ मैं सम्साफिए शव CDU Baisu कोılar पाम हाब।ャ। हम्साथ शर्टे boys. ख तेилась से से सथे को ह। सम्साथ म्नै। 협 mg अठ — ढव्सआदे लि FUCK Нам ध। जा dif धर्र हो 화ण जो हाब जो ते electricity that we קॉम्च सुख मॉप सौ कर एम दीए ह। poॲुट है� धातोः अन्तिमवर्णं तत् पठतु धातोः अन्तिमवर्णात् पूर्वं अध्वनिकः स्थाने गुणः भवति केन सूत्रेण भवति तर्हि अग्रे पठतु तैः सूत्रैः धातो गुणः भवति तदर्थं धातोः परः कीदृशः प्रत्ययः अस्ति इति चिन्तनीयम् उदाहरणार्थं स्वादिगणस्य चिन्तनं कुर्मः सप्तायां लट् लकारप्रथमपुरुषस्य एकवचनस्य वक्षायां योगशब्दन्ति ोप अतय षि अस् तस्कार इत संक यय षि किंगवा अस्ट व्याकरण तस्ा अस्ट साधाकूत्रि साधाक धा विशित् प्रत्यय साधाक सह शिथ बहुर्विषि तयोः समार समाहारद्वन्द्वः तिंक्षित् तिंषित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च धातोः इत्येतेषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः परश्च तिंक्षित् प्रत्ययः सार्वधातुकम् इदं संज्ञासूत्रम् इदानीं पश्यतु अत्र कार्यत्रयम् उक्तम् अस्ति खलु कुत्र गुणः भवति धातोऽङ्गे गुणः तर्हि धातोऽङ्कः इति धातौ इत्युक्ते अङ्गः अङ्गे गुणः भवति इत्युक्ते प्रत्यायात् पूर्वं यावान् भागः अस्ति तद् अस्य प्रत्ययस्य कृते अङ्गम् इति उक्तम् तर्हि कीदृशप्रत्ययस्य परे गुणकार्यं भवति इति चेत् अत्र सार्वधातुकप्रत्ययः वा भवतु आर्थधातुकप्रत्ययः वा भवतु गुणकार्यं भवति कदा गुणकार्यं भवति अङ्गस्य अन्तिमवर्णः एकवर्णः अस्ति चेत् गुणकार्यं भवति अथवा उपधायाम् एकवर्णः अस्ति चेदपि गुणकार्यं भवति प्रत्ययः सार्वधातुकं वा अर्थधातुकं वा इति कथं वयं जानीमः इति चेत् यत्र प्रत्ययः तिङ् अथवा चित् अस्ति तेभ्यः तिञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति अतः अयं सञ्ज्ञासूत्रमस्ति तद्भिन्नः यानि वर्तते तेभ्यः शेषात् शेषः शेशा? आर्धधुक वह ज्ञा शक्य अग्रे अभ्यास अस्त सातुक प्रत्य अंगाते इक गुण अवधाधाको ये अंक, सूत्रेण भू इत्यत्र ऊकारः अस्ति भू इत्यत्र ऊकारः अस्ति अत्र ऊ ऊकारस्य एव गुणः न तु अत्र भू इति उक्तम् तदापि अलोन्यस्य इत्यनेन अन्तिम उकारस्य स्थाने एव आदेशः न फकारः उकारः उभयं गत्वा अत्र गुणवर्णः आदिष्टः इति केवलम् उकारः एव गच्छति फकारः तिष्ठति फकारस्य स्थाने ओकारः पश्चात् सन्धिकार्यम् सन्धिकार्येण एव अत्र दूरपृशति कस्यापि सन्देहः अस्ति वा अस्मिन् प्रसङ्गे नास्ति चेत् एतत् सूत्रं पश्यामः सावधाधाको सप्तमाध्या तृतीय पाद पाद चतरशीतमसूत्र साधाक चर्धाक तोर इतरेतर द्वंद साधाधा के तोर सावधाको अग्रहवाक्य साधाको पदम सप्तम्यंधम यद्यपि सार्वधातुकार्थधातुकयोः इति दृश्यते तदापि तत्तु षष्टिदिवजनम् नास्ति सप्तमे दिवजनम् एकपदम् इदं सूत्रम् अस्मिन् सूत्रे सम्पूर्णसूत्रं यदा पश्यामः तर्हि तत्र किं किं दृश्यते एकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः इति अस्ति तर्हि मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्तिः इत्यनेन परिभाषासूत्रेण इक् स्थानी भवति यत्र स्थानी न उक्तम् तर्हि इको गुणवृत्ति इति परिभाषासूत्रम् किम् वदति इक् वर्णः स्थाने भवति यत्र स्थाने न उक्तम् तत्र अनिवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुक आर्थधातुकयोः इकः इति पदम् इको गुणवृत्तिः इति सूत्रतः आगतम् अङ्गस्य इत्यस्य अचकारः गुणः इति पदम् इदेर्गुणः इत्यस्मात् आगतम् सार्वधातुक आर्थधातुकयोः इति एव सूत्रम् तर्हि इकः गुणः सार्वधातुक आर्थधातुकयोः इति विधिसूत्रम् गुणाकार्यं विधीयते अत्र कश्चन प्रश्ने हौदेति ततः पठनीयम् कुमद्भगिनी भगिनी पठितुं शक्यते वागिनि हरि ओम् न श्रूयते भानुवति भगिनी भगिनी पठतु अहम् आहूतवती मया मम ध्वनि न श्रूयते वा श्रूयते mm? uh, 14, page... 14, 14 फोर्टीन् फोर्टीन् फोर्टीन् वन् फोर् करपत्रं प्रेषितं खलु प्राप्तं वा तत्र अत्र कश्चन प्रश्नः उदेति इति अस्ति सार्वधातुकार्थधातुकयोः इति वदति यत् सूत्रं किं वदति यत् इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः इति तर्हि इकः अङ्गस्य इति पदं वर्तते अस्मिन् पदे अङ्गस्य इत्यस्य विशेषणमस्ति इकः इति शब्दः प्राप्तं वा भगिनी प्राप्तं पठतु अत्र कश्चन प्रश्न उदेति यत् सार्वक सम्यक् न श्रूयते महोदय शनैः श्रूयते किञ्चित् उच्चैः मम कृते श्रूयते मम कृते श्रूयते अन्येषां कृते किञ्चित् उच्चैः पठतु किञ्चित् उच्चैः वदतु भगिनी अत्र कश्चन प्रश्नः उदेति यत् सार्वधातुकार्थ धातुकयोः इति वदति यत अंगस्य अंगको भूटी धाई वर्ण हुकार अतिम वर्ण शतय पर कारणत सह अंग अंगाते इक वर्ण अस्थ अभी चाहे गुण ज्यादा आहते प्रयोग कथम अंगाते तक गुण बीश्नुत तस्य समाधानार्थं कर्तुं सहाय्यम् अपेक्षितं तदर्थं किम् अपेक्षितम् इति अस्ति खलु भगिनी अपेक्षितम् इति अस्ति अपेक्षितवगन्तव्यं विधि इत्युक्ते कार्यं सर्वधातुका प्रसंगे कार्यमस्ुण कार्य अत विधि अस्थ क्यों विधि विधि यदि वर्णन विधि अंगम विशेषण सूत्र यन वर्णे शिष्ट अस्ति सः विधि द्वयोः भवति के के भासुकयोः इति सूत्रे स्वयम् अस्ति तथा तस्य सार्वर्थयोः इति सूत्रे खिगन्तस्य तस्य अङ्गस्य अग्रे न न एकपरि एक पङ्क्ति अस्ति तदेव पठतु अग्रे आहत्य अङ्गम् इङ्गम् द्वयोः अङ्गयोः गुण भवति इदं कथं धन्यवादः भगिनी उत्तमं धन्यवादः भगिनी तावत् पर्याप्त अत्र कश्चन प्रश्नः उदरेति सार्वधातुकार्थधातुकयोः इति सूत्रं किं वदति इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः तर्हि भू इति धातौ इक्वर्णः ऊकारः अस्ति तद्वयम् हू इत्यत्र फकारः ऊकारः अन्तिमवर्णः ऊकारः तर्हि शक्रेयः परः अस्ति इति कारणतः सः अङ्गम् अपि हू इति धातु किमस्ति अङ्गम् अपि अस्ति अग... अधः अङ्गान्ते एकवर्णः अस्ति अपि च तस्य गुणः जातः तर्हि यदा लटी रूप साधया महा प्रथम सोपने की संज्ञा भूत भूणादेश अंगु आहत साधाकोन कदम वास्तव गुण प्रश्ने सी तस्य समाधानार्थं सूत्रद्वयस्य साहाय्यम् अपेक्षितं तदर्थं किञ्चित् इतोपि अवगन्तव्यं विधि इत्युक्ते कार्यं सार्वधातुकार्थधातुकयोः इति किम् अस्ति विधिसूत्रम् अस्ति इत्यस्य प्रसङ्गे इदं सूत्रमेव अस्मिन् प्रसङ्गे आगच्छति कार्यं किम् अस्ति सूत्रेण गुणकार्यम् अतः विधि गुणः कस्य विधिः इति प्रश्ने सति इक् वर्णस्य विधिः येन येन विधिः भवति इक् वर्णेन विधि विधिः भवति इकवर्णस्य गुणकार्यं इक् वर्णः कस्य विधिः इक् वर्णस्य एव कार्यं भवति केन कार्यं भवति इति चेत् इक् वर्णेन एव कार्यं भवति इक् एव अत्र अङ्गं किम् इति चेत् इति वदामः सूत्रेषु येन वर्णेन विधि विशेष विशेषणं विशेष विधिः उक्तः इदानीम् एनवर्णेन विधिः उक्तः इति चेत् विधिः इत्युक्ते कार्यम् इति अस्ति येन वर्णेन कार्यम् उच्यते सूत्रेषु एन वर्णेन विशेषणेन विधिः उक्तः अस्ति सः विधिः द्वयोः स्थलयोः भवति ते के एकं तु स्वस्य सार्वधातुकार्थधातुकयोः इति सूत्रे यत् अङ्गं तत् स्वयम् इक् अस्ति तस्य अत्र कोऽपि क्लेशः नास्ति इत्युक्ते अत्र सार्वधातुक आर्थधातुकयोः इति सूत्रे स्थानीय अस्ति इगन्त परन्तु पुगन्तलघुपदस्य च इत्यत्र किमस्ति तदन्तस्य सार्वधातुक आर्थधातुकयोः इति सूत्रे इगन्तस्य इत्युक्ते तादृशम् अङ्गम् यस्य अन्ते इक् वर्णः अस्ति इति एकम् स्थानी उक्तमस्ति सार्वधातुक अर्धधातुकयोः इति इत्यनेन आहत्य एते अङ्गम् इक् अथवा अङ्गम् इगन्तम् द्वयोः प्रसङ्गे गुणः भवति इत्युक्ते साक्षात् केवलं इक् एव अङ्गम् इति वदामः इन इण् एक धातुः अस्ति इणु स्थाने गुणादेशः भवति एकारः भवति अत्र एति इति रूपं परन्तु भू इत्यत्र अङ्गान्ते एव गुणः न तु सम्पूर्णान्तस्य तर्हि भू इत्यत्र ओकारः भवति गुणवर्णः पश्चात् भव् इति भवति अत्र फकारः तिष्ठति यद्यपि केवलम् उकारस्य एव आदे आगमः भवति न आदेशः भवति अतः अत्र भवति इति रूपम् तस्यापि सन्देहः वा भगिनी एतद् स्वस्य सार्वधातुकार्धुकयोः तद् अनन्तरं तदन्तस्य इति तद् किञ्चित् क्रमः जायते इत्युक्ते स्वस्य इत्यनेन येन विधिः उच्यते येन वर्णेन विधिः उच्यते भगिनी वदतु येन अङ्गस्य विधिः केन केन वर्णेन उच्यते गुणवर्णः वर्तते खलु गुणवर्णः आम् तद् सत्यं परन्तु वयम् इदानीम् अधीतवन्तः खलु इकः गुणः भवति इति वर्णस्य हा हा तर्हि केवलम् इक् वर्णस्य गुणः इति वदामः तदन्तस्य इति न स्वीकृतं चेत् हू इति जागृतवस्ति खलु तत्र फकारः उकारः अस्ति केवलम् इक एव अङ्गमिति वदामः चेत् फकारः गच्छति तद न तिष्ठति हू इत्यत्र उकारस्य स्थाने साक्षात् उकारः आगच्छति फकारः न आगच्छति परन्तु इगन्तस्य इति वदामः चेत् फकारः तिष्ठति उकारस्य स्थाने एव गुणकार्यं भवति अन्यथा अङ्गस्य गुणादेशः इति एव चेत् अत्र हकारस्य उकारस्य मिलित्वा ओकारः भवति तद् क्लेशः भवति अस्तु भगिनी तर्हि अग्रिमपुटे सूत्रम् इति अस्ति तत् पठिष्यामः एन विधिः तदन्तस्य इति भानमति भगिनि पठितुं शक्यते वा भगिनि नास्ति चेत् अनसूया भगिनी भगिनि पठतु आं भगिनि सूत्रम् एन विधिस्तदन्तस्य प्रथमम् अध्याये प्रथमं पादे द्वि द्विसप्तितमद्विसप् द्विसप्ततितमसूत्रः पदविच्छेदः येन विधिः तदन्तस्य येन विधिः उक्तः उक्तः सः विधिः तदन्तस्य अपि भवति स्वस्यापि भवति सः अन्ते यस्य सः तदन्तः तस्य तदन्तस्य ब बहुर्विधिः विधीयते इति विधिः येन तृतीयान्तः विधिः प्रथमान्तः तदन्तस्य षष्ठान्त्यः त्रिपदमिदं सूत्रं त्वं रूपं शब्दस्य शब्दसंज्ञा शब्दस्य अशब्दसंज्ञा इत्यस्मात् मह्यं तो शब्दस्य अशब्दसंज्ञा प्रथम अध्याये पादे अष्ट न न तद् मास्तु भगिनी तस्य आवश्यकता नास्ति तदा अनुवृत्तिः रूपम् इत्यनयोः अनुवृत्तिः परिणामः इत्यनेन षड्यन्ते भवतः रूपस्य अनुवर्तिस इति तदन्तस्य स्वस्य रूपस्य परिभाषासूत्रम् सार्वदातुक अर्धदातुकयोः इत्यस्य अनुवर्तिः इकः अङ्गस्य गुणः सार्वदातकार्धदातुकयोः अत्र इकः इति अङ्ग अङ्गस्य विश् विशेषणम् आहत्य का mm -hmm. का mm. येन विधिस्तदन्तस्य इत्यनेन सार्वदातकार्धदातकयोः इत्यस्य अनुवर्तिः परिवर्तिता इकः अङ्गस्य इदन्ताङ्गस्य गुणः सार्वधातकार्धदातकयोः धन्यवादः भगिनी अत्र पश्यतु येन तदन्तस्य इति प्रश्नः आसीत् खलु तस्य विवरणम् अत्र आगच्छति एन विधिः तदन्तस्य तदन्तविधिः इति परिच्छदः येन विधिः तदन्तस्य येन विधिः उक्तः सः विधिः केवलं स्वस्य इति न तदन्तस्य अपि इति अस्य अर्थः तर्हि स्वस्य इत्यनेन किम् इति चेत् यत्र केवलम् इत् एव आगच्छति तादृश किमपि अङ्गमागच्छति चेत् इकारः उकारः ऋकारः तादृश अङ्गम् यदि आगच्छति तद् निश्चयेन अत्र गुणकार्यं भवति परन्तु केवलं तद् इति नास्ति यत्र जी भू इत्यादि दादः दादवः सन्ति तेषु अपि इकवर्णः वर्तते तर्हि तेषाम् तेषु विद्यमानः यः इकवर्णः तस्यापि गुणकार्यं भवति कदा भवति तेभ्यः यत्र अङ्कस्य अन्ते यदि अङ्गस्य अन्ते वर्तते तदा अनेन सूत्रेण गुणकार्यं भवति इति अत्र उक्तम् विधीयते इति विधिः येन इति तृतीयान्तम्पदम् विधिः इति प्रथमान्तम् पदम् येन विशेषणेन विधिः उक्तः तर्हि अत्र विशेषणेन इति उक्तम् तर्हि अयं विशेषणम् अस्ति इति कथं वयम् जानीमः इति अत्र सूत्रम् पश्यामः तर्हि अत्र इकः अङ्गस्य इति षष्ट्यन्तपदं द्वयमस्ति इकः इति एकम् अङ्गस्य इति एकम् तर्हि यत्र सूत्रे समानविभक्तिपदं द्वयम् आगच्छति तत्र तयोः विशेषणविशेषभावः विशे अस्ति इति वयं ज्ञातुं शक्यते तर्हि विशेषणं किम् इति चेत् इकः तर्हि येन विशेषणेन विधिः उच्यते येन इक्वर्णेन विधिः उच्यते तत् तादृशविशेषणम् अस्ति अत्र इक् इति प्रत्याहारस्तवर्णः तद् कुत्र भवति तद् स्वस्यापि भवति तदन्तस्यापि इति उक्तम् स्वस्य इति पदं कुतः आगतः इति चेत् स्वं रू। रूपम् इति अस्ति खलु तदेव रूपस्य इति अत्र दृश्यते तदेव अत्र विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवतः इति स्वस्य स्वं रूपम् इति विभक्तिपरि परिणामं कृत्वा स्वस्य रूपस्य इति दृश् अत्र प्रदर्शितं तर्हि एनविधिः तदन्तस्य स्वस्य रूपस्य इति परिभाषा सम्पूर्णसूत्रं वर्तते एनविधिस्तदन्तस्य इति सूत्रस्य सम्पूर्णरूपम् अत्र वर्तते सार्वधातुकार्थधातुकयोः इत्यस्य सम्पूर्णरूपं किम् इति चेत् इकः गुणः सार्वधातुकार्थधातुकयोः इति अत्र इकः अङ्गस्य इत्यत्र इकः अङ्गस्य विशेषणमस्ति तर्हि येन विधिस्तदन्तस्य इत्यनेन सार्वधातुक आर्थधातुकयोः इत्यस्य इत्यस्मिन् सूत्रे किम् अस्य सूत्रस्य प्रसक्तिः इति अनेन एव इगन्त अङ्गस्य गुणकार्यम् भवति इति वयं ज्ञातुं शक्यते इदानीं स्पष्टं वा नास्ति चेत् सुनन्द आं भगिनि अत्र पुनः कश्चन प्रश्नः उदेति यत् यदि विधिः स्वस्य इकः अङ्कस्य तदन्तस्य इगन्त इगन्ताङ्गस्य च भवति तर्हि सः विधिः सम्पूर्णस्य अङ्गस्य स्थाने भवति वा अस्य समाधानम् अस्ति सम्पूर्णस्य अङ्गस्य स्थाने न भवति किन्तु अङ्गस्य अन्तिमवर्णस्य स्थाने एव भवति इदं कथं वा जानीमः सूत्रम् अलोन्तस्य पदविच्छेदः अलः अन्तस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्तस्य अलवर्णस्य स्थाने भवति अलः षष्ट्यन्तम् अन्तस्य षष्ट्यन्तम् द्विपिद द्विपदमिदं सूत्रम् षष्टि स्थाने योग इत्यस्मात् षष्टि स्थाने इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् षष्ट्या अन्तस्य अलःस्थाने विद्यमानः आदेशः इदं परिभाषासूत्रम् आहत्य सार्वधातुक अर्धदातुकयोः इत्यस्य सूत्रस्य प्रयोगार्थम् आम् इदानीं श्रूयते खलु भगिनि श्रूयते आहत्य सार्वधातुक अर्धदादुकयोः इत्यस्य सूत्रस्य प्रयोगार्थम् प्रत्ययः सार्वधातुकं भवेत आर्धधातुकानां प्रसङ्गः अग्रे भविष्यति प्रत्ययः अङ्कात् परः भवेत् अङ्कं स्वयम् इख् अथवा इगन्तं भवेत् उत्तमं धन्यवादः भगिनी इदानीं पश्यतु अत्र पुनः प्रश्नः उदेति यदि विधिः स्वस्य इदङ्गस्य तदन्तस्य इगन्धा भवति तर्हि सः सम्पूर्णस्य अङ्गस्य अङ्गस्य स्थाने भवति वा इति प्रश्नः तदन्तस्य इति उक्तम् इगन्धस्य इति उक्तं तर्हि तादृश इगन्धमस्ति भूजि अयं विधिः सम्पूर्णस्य भवति वा इति प्रश्नः तर्हि भू इति इत्यस्य गुणकार्यं यदा भवति सम्पूर्णभू इति अङ्गं गत्वा तत्र गुणवर्णः आदेशः भवति वा अथवा जि अस्ति चेत् जि सम्पूर्णरीत्या नष्टः भवति एकारः तिष्ठति इति वा इति प्रश्नः अस्य समाधानमस्ति सम्पूर्णस्य अङ्गस्य अंगस्य स्थाने न भवति किन्तु अङ्गस्य अग्रिमवर्णस्य स्थाने एव फकार युक उकार सेनेकार अ गकार योग इकार अस्त चेत इकार से जब ठती लोप नलो तद व जानी चेत अकमभाषा सूत्र साहाय क अलः अन्त्यस्य इति परिभाषासूत्रम् कुत्र वर्तते प्रथमाध्यायस्य प्रथमपादस्य द्विपञ्चाशत्तमसूत्रमस्ति सूत्रम् किमुक्ष्यते षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति अलः अन्त्यस्य इत्यनेन अन्तिम अन्त्यस्य अल्वर्णस्य स्थाने एव आदेशः भवति अल् इति पदम् अलः इत्यस्य अलः अन्तस्य इति अस्ति अलः इति षट्यन्दं पदम् अस्य स्थाने भवति अन् अलः अन्त्यस्य अन्त्यस्यापि षष्ट्यन्दं पदम् इदं सूत्रम् तर्हि यत्र अङ्गमस्ति तादृश अङ्कस्य अन्तिम अल् स्थाने एव अत्र आदेशः भवति इति अनेन परिभाषासूत्रेण वयं ज्ञातुं शक्यते षष्टिस्थाने योगा इत्यस्मात् षष्टि स्थाने अनयोः अनुवृत्ति तर्हि सम्पूर्णसूत्रम् किम् अस्ति इति चेत् षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः इति अर्थः इदानीं सूत्रे षष्ट्यानिर्दिष्टपदम् किम् अस्ति इति चेत् इकः इति अस्ति खलु इकः इति तादृश षष्ट्यानिर्दिष्टपदस्य अन्त्यस्य अल् स्थाने विद्यमानः आदेशः इति अर्थः आहत्य सार्वधातुकार्थधातुकयोः इति सूत्रस्य प्रयोगार्थम् किम किम अवेश्य किं किं भवति प्रथमप्रत्ययस्य सार्वधातुकम् भवेत् यतो हि सार्वधातुकप्रत्ययः वा आर्थधातुकप्रत्ययः वा अस्ति चेत् गुणकार्यम् भवति इति उक्तम् इदानीं पाठे सार्वधातुकप्रत्ययस्य विषये एव चर्चा इति कारणात् अत्र सार्वधातुकप्रत्ययः भवेत् इति चिन्तयतु प्रत्ययः सार्वधातुकम् भवेत् प्रत्यय प्रत्ययः अङ्कात् परः भवेत् प्रत्ययः कुत्र आगच्छति धातुकः प्रातिपदिकात् इति वदामः खलु अतः इदानीम् अदृशप्रत्ययस्य पूर्वं यावान् भागः अस्ति तस्य अङ्गम् इति संज्ञा तर्हि अङ्गात् परः प्रत्ययः भवति अङ्गं स्वयम् इक् अथवा इगन्धं भवेत् तर्हि तादृश अङ्गं कथं भवेत् इति चेत् एकं तु इगन्धं भवेत् अथवा इक् वर्णः स्वयं भवेत् इक् प्रत्याहारः स्वयं भवेत् इति अर्थः अत्र कस्यापि सन्देहः अस्ति चेत् पृच्छतु नास्ति चेत् इदानीं सुन्दरमहोदय भवान् पठतु तदानीम् इगन्ध अङ्गस्य इकः गुणः भवति कदा यदा अत्र कार्यत्रयम् उक्तं खलु प्रत्ययः सार्वधातुकं प्रत्यय प्रत्ययः अङ्गात् परः अङ्गं स्वयम् एकः वायुगन्धं भवेत् तादृशकार्यत्रयम् अस्ति चेत् अत्र गुणकार्यं भवति एकवर्णस्य गुणकार्यं भवति सुन्दरं महोदय भवान् पठितुं शक्यते सार्वधातुकार्थधातुकयोः इति अपठति िगन्ताङ्गस्य इकः गुणः भवति तत् सार्वतुक आर्द्रदाः घन्ताङ्गस्य इकः गुणः भवति सार्वदातुके आर्द्रदातुके च तथ्ये करे सार्वदातुक सार्वदातुकं च आर्द्रदातुकं च तयोरितरेतरद्वन्द्वः सार्वदातुक आधदातुके तयोः सार्वदातुक आधदातुकयोः सार्वदातुक आदधातुकयोः सप्तम्यन्तम् एकपदमिदं सूचनं निधेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः युक्तो गुणवृत्तिः इत्यनेन परिभाषासूत्रेण कानि भवति यत्र स्थानि न उक्तं येन विधिस्तदन्तस्य इत्यनेन युक्तः अङ्गस्य इत्युक्ते न केवलं युक्तः इति अंगम् किन्तु तादृशम् अङ्गं यस्य अन्ते इकः अपि अलन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः अनुवृत्तिसैकसूत्रम् इगन्ताङ्गस्य इकः गुणः कादधातुक आदधातुकयोः इदम् विधिसूत्राणि hmm. धन्यवादः अग्रे अपि किञ्चित् अस्ति खलु येन विधिस्तदन्तस्य अलन्तस्य एते द्वे सूत्रे व्याकरणे तद् तदन्तविधिः इति नाम्ना जायते तदन्तविधिः इति नाम्ना जायते उत्तमम् महोदय इत्युक्ते अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गे एनविधिस्ततन्त्रस्य अलोन्धस्य उभयोः सूत्रयोः प्रसक्तिः अस्ति अत्र अन्यत् सर्वं मया अत्र कस्यापि सन्देहः अस्ति चेत् पृच्छतु नास्ति चेत् अग्रे अभ्यासं कुर्मः केवलं पठनीयमेव अत्र किमपि एतदपि उक्तम् यथासङ्ख्यमनुदेशसमानम् इति परिभाषासूत्रेण एचोयवायवः वाया एचोय वायावः इत्यत्र एकारः ओकारः ऐकारक औकारः अस्ति तेषां स्थाने क्रमशः अव् आय् आव् आय् एते आदेशाः भवति इति उक्तम् तर्हि यत्र स्थानि अपि च आदेशः समानसङ्ख्यावतः वर्तते तत्र अस्य सूत्रस्य प्रसिद्धिः अस्ति उषा भगिनी भगिनी कर्तुं उषा भगिनी अत्र नमस्ते चिन्तयामि विमला भगिनी पठतु भगिनी ऐ केनाट् फालो ऐ हाव् अ प्रिण्ट् आफ़् करपत्रं महोदये परन्तु ऐ केनाट् एबल् टु फालो देट् मैण्ड् इस् ओल्ड् वन् ऐ थिङ्क् मम महोदये अहम् इदानीं लिङ्क् प्रेषितवती खलु भगिनी क्के दिस् अुड् अभ्यासुलि वेरि गुड् अभ्यास ह् टु पार्टिसिपेट् ओके Now, this is 9th one. Okay, Okay, see the number 009. So, keep it with you. नैन्त् वन् ओके जीरो जीरो नैन् इति अस्ति Guna तर्हि मध्ये Sahita Drishti Ahatya. दृष्टिः आहत्य शप् अधिक तिक् भू अ लषकतद्विते Lashakva तद्विते प्रथमवादे भगिनी सूत्रस्य संख्या न आवश्यकं भगिनि हू इत्यत्र भगिनि हू इत्यत्र किमपि वर्णः एतत् नास्ति संज्ञकः नास्ति शक् ना ना ना इत्यत्र शकारस्य दशको दद्यते इति सूत्रेण पकारस्य हनन्द्यम् तादृशं वक्तव्यम् अस्तु एतद् एकनिमिषः भगिनि एकनिमिषं किम् अस्ति भगिनि अस्ति इदानीं पठतु भगिनि शप् इत्यत्र शकारस्य लषक्व तद्यते इति रूपेण शकारस्य अनन्तरं पकारस्य हलन्त्यम् इति सूत्रेण पकारस्य हकारः एव स्थास्यति तिप् इत्यत्र पुनः पकारस्य हलन्त्यम् इति सूत्रेण तर्हि भु अ ति इति रूपं सिद्यते बु ब उ अ तस्य विङ्गडनम् व, ओ, किं षि सार्वधातुकं षप् षिप् सार्वधातुकार्धधातुकयोः उ ओ तदन्तस् तदन्तरम् अत्र सन्धिकार्यं वर्णमेलनं च व, अ, बि एजोयवायावः इति सूत्रेण ओ अ औ भव ओकारः योगः अकारः ओकारयोगः अकारः अव औकारयोगः अकारः भवति वर्णमेलनं सन्धिसूत्रम् एचोयवायावः पदविच्छेदः एच एचः अयवायावः एचः ए ओ आई स्थाने क्रमेण आय आउ इंती अचि परे क्रमेण यहास अशन परिभाषा सूत्रेन सह सहाय ई च आतरेतर अयवायाव प्रथम सूत्रोणचिस्मा अच्छ अयवायावः अचि संहितायाम् इदं विधिसूत्रम् अयं यान्तवान्तादेशसन्धिः अथवा अयादेशसन्धिः इति उच्यते धन्यवादः भगिनि अत्र कस्यापि सन्देहः अस्ति वा एतत् बहुवारं वयं कृतवन्तः न भगिनि उत्तमं धन्यवादः भगिनी इदानीं इन्दुमती भगिनी भगिनी पठितुं शक्यते वा भानमती भगिनी क्षम्यता सीना भगिनी तर्हि पुनः स्नेहल् भगिनी भगिनी एव पठतु अनसूयभगिनी भगिनी पठितवती खलु आं भगिनि पटपटामि स्नेहभगिनी भगिनी पठामि पठति चेत् अहं पठामि भगिनीत सूत्रसहितदृष्टिः आहत्य हो अधिकं शप् अधिकं अधिकं शप् अभवति दशक्दिते इति सूत्रेण शकारस्य इत्सन्या भवति हलन्त्यम् इति सूत्रेण पकारस्य इत्थ्या भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति अतः अ एव अवशिष्य भागः भगिनी अग्रिमपटं पुटे पुडे आगच्छतु भगिनी तत् जातं वदति भवती वदति खलु अङ्गस्य तदानीम् इगन्त इगन्ताङ्गस्य एकः गुण भवति तत् तत्र तत्र इदानीं पुनसङ्ख्या नैन्टीन् आगच्छतु तत् तत्पर्यन्तं पठितवान् इदानीम् अत्रूस् इति उक्तं पश्चात् अत्र एकवायावः इति सन्ति सूत्रमेव ततः अग्रे आगच्छतु अग्रिमपुदे आगच्छतु अत्र सूत्रे केवलम् एष एषः स्थाने आदेश तत् अभव आदेश अचीपरे संहिताया विषय कथम वह जानी अच्छा क्रम वर्त ऐ तदर्थम् इदं सूत्रं यथासङ्ख्यं संख्यमनदेशः समानं सूत्रे स्थानिनः यस्मिन् क्रमे उक्ताः सन्ति आदेशाः अपि तस्मिन् क्रमे एव उक्ताः सन्ति इति सूत्रस्य अर्थः इदं परिभाषासूत्रम् आहत्य सम्पूर्णप्रक्रिया इयं भू अधिकं षप् भू अधिकं शत्यय अवशिष्य दशकद्दीप शकारसे बहुति हलंतमी सूत्रेन पकारसे होती लोपून दोपू अक अक पद विच्छेद वर्ण विच्छेद प भ अक अक अक अस् ऊकारस्य कार्गदातकार्गदातकयोः इति चित्रेण उकार उकार अकारस्य उकार उकारस्य ओकारः भवति भवति तत्र इति अधिकतीर्भवति भवति भवति उत्तमं भगिनी धन्यवादः भगिनी धन्यवादः मम श्रु श्रुति श्रूयते वा श्रूयते तर्हि भगिनी अग्रिम क्षीतिदातुः अस्ति खलु तत् पठतु भगिनि अस्तु पश्चात् आगच्छतु अग्रे आगच्छतु पेज् नम्बर् ट्वेण्टि अस्तु क्षी्वादिषि क्षये लट्लकारप्रथमपुरुषस्य एकवचनस्य विवक्षायां क्षीयोगः शपुयोगः तिप् क्षीयोगः आयोगः तिप्ति लशप् तद्विदे प्रथमोऽध्याये तृतीयपादे अष्टमसूत्रम् हलन्त्यं प्रथमोध्याये तृतीयपादे तृतीयसूत्रं तस्य लोकः प्रथमोऽध्याये तृतीयपादे नवमसूत्रम् तदेव इयोगः आयोगः ति योगः एयोगः आयोगः तिञ्चित् सार्वधातुकम् तृतीयपादे तृतीयोऽध्याये चतुर्थपादे शा... त्रयो त्रय त्रिदशाधिक शत श... त्रयो त्रयोदशाधिक एकशत त्रयोदशाधिकशतं षप् षट् शाद सार्वधातुकार्धधातुकयोः अष्टमोऽध्या सप्तमोऽध्याये तृतीयपादे चतुरशीतिः सूत्रम् इ षयोगः अय इ ए भवति शे योगः ऐ योगः आयोगः ति एचोयवायवः षष्टोध्या षष्टमोऽध्याये प्रथमपादे सप्तसप्ततिः सूत्र ए योगः आ ऐ योगः आर्णमेव उत्तमम् अत्र षष्टाध्यायः इति वक्तव्यं भगिनि मयुषष्टम पृच्छतु भगिनि पृच्छतु न श्रूयते कस्य प्रश्नः अस्ति इति दातद्वयं श्रु अपि च इन् एतद्वयं वर्तते तदपि कृत्वा अद्य अत्र तपयामः स्नेह भगिनी भगिन्याः ध्वनिः न श्रूयते गिनी पठतु एतत् सृ अपि च यन् इति अस्ति खलु तत् पठतुः गतौ लट्लकारप्रथमपुरुषस्य एकवचनस्य विवक्षायां सुक्तं शप् युक्तं तिप्त्राणि तत् सर्वं त्यजतु सृ योगः उ योगः आ इति अस्ति खलु उकारस्य गुणकार्यं केन सूत्रेण भवति अहं पृच्छामि भवतीं वदतु सार्वधातुकातुकयोः दा, अनेन सूत्रेण उकारस्य गुणः भवति ओकारः तर्हि अत्र शक् प्रत्ययः निमित्तमस्ति श्रित्वा अस्ति पित् गुणनिषेधः अपि नास्ति तर्हि गुणकार्यं भवति ओ भवति इदानीम् ओकारः इति अचु एचः एचुवर्णः अस्ति परे अचुवर्णः अस्ति इति कारणात् यजोयवायावः इति सूत्रस्य प्रसक्तिः अस्ति वा न वा अस्ति भगिनि अस्ति तर्हि ओस्थाने अव् अव् भवति अकारः अत्रैव वर्तते इति कारणात् अव् इति भवति तर्हि स्रवति इति रूपलु तद् इन् जातोः तादृशं वदतु इन् युक्तं टिप् अदादिः अतः अत्र शेप् लोपः भवति एव अवशिक्ष्यते हलन्त्यम् इत्युक्तेन नकारः लोपः भवति लोपः भवति अतः इ युक्तं पुनः लेखनः भवति अतः एकः आदेशः भवति एकं सि वर्णवर्णेन एम् तर्हि अहं कामनीसप्ताहे किं भवति अस्माकं पेज् नम्बर् ट्वेण्टि टु अहं पठिष्यामः सर्वेषां धन्यवादः नमस्कारः कस्यापि सन्देहः अस्ति चेत् पृच्छतु धन्यवादः महोदये धन्यवादः धन्यवादः किमभवत् भगिनी ध्वनिः न श्रूयते बाणमति भगिनी भगिनी ध्वनिः अपि न श्रुतवती विजयमहोदयः आसीत् तस्याः सर्वदा शृणोमि न अवगच्छामि मम ध्वनि श्रूयते महोदय श्रूयते भगिनि अत्र प्रिण्टौट् स्वीकरोतु भगिनी तर्हि शनैः शनैः पठतु पठतु अत्र पड़ती चेत अहम वक्त शक्य खलु अद्लेश